अत्रे पुत्रतया पुरात्मनसूयाम् हि दत्ताभिधो जात शिष्यनिबन्ध तन्त्रितमनः स्वस्थश्च रकान्तया दृष्टो भक्ततमेन हे हयमहीपालेन तस्मै वदान् अष्टै स्वद्यमुखात् प्रदाय ददित स्वेनैव चान्ते वदौ